मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायम् एय्टीन् गणेशस्वरूपक्रमवर्णनम् श्रीगणेशाय नमः शौनक उवाच धन्योसि सूत सर्वेभ्यो भवान् ज्ञानाधिको मदः नमस्त्रिभुवनेनैव संशयानां विनाशकः सर्वसंशयहीनोऽहं धन्यश्चाद्यत्वया कृतः अधुना कृतकृत्यश्च जादो मुनिसमन्वितः न मुद्गलसमं किञ्चिन्मया ज्ञातं परात्परं तेनोक्तं मौद्गलं सूद मौद्गलेन सदृक्परम् वेदशास्त्रपुराणानां नानामदनिकृन्दनं मौद्गलं मुद्गलाकारं सर्वसारप्रकाशकं त्रैलोक्ये मुद्गलो योगी मान्यसर्वैः प्रकीर्तिदथा सर्वाभिमानहीनत्वात् यथार्थकरणात् किल मुद्गलेन कृतं यद्वै पुराणं मुद्गलाकृति तस्यापमानभावेन नारकी जायते नरः या मामुद्गरहस्तास्तं मारयिष्यन्ति निश्चितं न वक्ता कुत्र योगीन्द्रो मुद्गलेन सदृग् भवेद् न भूतो नाधुना कुत्र वरुतदे सूतनिश्चितं निरकङ्कारसंयुक्तं भाषणं मुद्गलस्य च पुराणानि च सर्वाणि स्वस्वब्रह्मपराणि वै अभिमानेन सङ्गोप्यस्वदोषं प्रवदन्तिः यथार्थभाषणं सर्वं पुराणानां न संशयः मुनीनां देवतादीनां स्थितस्तत्राप्यहं किल तेन भिन्नमदादीनां प्रकाशस्तेषु जायते मौद्गलं सर्वमान्यं वै निरहङ्कारभावतः अभिमानो महाकोरो ह्यजेयो देवयोगिभिः मुद्गलेन कृदो जीवविवर्जितः अतोऽयं मुद्गलप्रोक्त एव महर्षिभिः तत्र चित्रं न वै सूत सर्वमान्यं वदेत्परम् अहो गणेशहस्तस्थो मुद्गलः पदितो भुवि नराकारस्वरूपेणाङ्गिरसेन प्रपालितः स एव मुद्गलो योगी योगरूपप्रकाशकः तत्र किं चित्रकमन्येऽभिमानैर्वर्जितात्मकम् मुद्गलस्य च दक्षस्य संवादेन युतं परं पुराणं चाङ्गिरः प्रोक्तं श्रुतं शान्तिप्रदं मया सूतत्वं पुराणस्य प्रविस्तराद माहात्म्यं श्रवणं चास्य कीदृशं क्रियते जनैः विधिना केन कर्तव्यं श्रवणं खैः पुरा कृतं के के सिद्धियुधा जादाश्रवणादस्यमानद पारायणं पुराणस्य कर्तव्यं गणेशस्य पुराणानि चत्वारि कथितानि तु तेषां श्रवणमात्रेण फलं किं नु समम् अथवा भिन्नभावाख्यं फलं भवति तद्वद येन संशयहीना वै भजिष्यामो गजाननं सूत उवाच एकविंशदिग्भेदाैः स गणेशो ब्रह्मनायकः क्रीडति प्रणवाकारो ब्रह्माण्डस्थे पुराणके ब्राह्मे द्वादशभेदैः स क्रीडते बुद्धिचालकः निर्गुण स गुणाधारप्रणवस्य प्रचालकः गणेशे मूर्तिमाख्यक्रीडतिव बुद्धिस्त प्रणवस्थस तैर्योगात्मका प्रणवात्मकोपासना कांड उच्य हृदय ल क्रीड़ा कांड प्रकर्ति मौद्गलेष्ठविधसोऽपि वर्णितो योगधारकः संयोगयोगयोर्योगकार पूर्णः सुशान्दिगः तेषां फलं प्रवक्ष्यामि गणेशज्ञानकारकं तच्छ्रुत्वा मुनय सर्वे संशयेन विवर्जिताः त्रिगुणमयकायाश्च देवाः पञ्चप्रकीर्तिताः ब्रह्माविष्णुशिवसूर्यशक्ति सर्वत्र पठ्यते अपूज्यो विधिरेकेदु वदन्ते शास्त्रसम्मतौ मध्यस्थाये नरा विप्रब्रह्मणो लोकगामिनः चतुर्नां भजने सक्ता शिवादीनां नरादयः एतेषां तु लोकेषु भग्र्या गच्छन्ति संयुधाः सगुणोपासका येऽत्र शिवादीनां गुणात्मनां ते तेषां लोकमासाद्य भोगकान् परान् पुनः पतन्ति भूमौदे जन्मभाग्यसमन्विताः भवन्ति कृपया तेषां प्रणवे रुचिसंयुधाः तदस्ते प्रणवाकारम् भजन्ते गणराजकं ब्रह्मप्राप्त्यर्थमानन्दाद्यत्नवन्दो न संशयः तदस्तत्कृपया युक्ता भवन्ति ज्ञानसंयुधाः त्यक्त्वा प्रणवसंस्थं ते भजन्ते बुद्धिधारकं हृदि बुद्धिपदिं पूर्णं भजन्ते यत्नसंयुताः शमे दमे परा नित्यं नानाभावैर्विवर्जितं बुद्धिस्तं तं समाराध्य तत्कृपायुक्तचेदशः भजन्ते गणनाथं वै शुण्डादण्डविराजितं ये कनिष्ठस्वभावेन तत्परा नित्यमादराद योगप्राप्त्यर्थमानन्दाच्छमदमपरायणाः गणेशोपासनायुक्ता मन्त्रध्यानपरायणाः गणपत्याभिमानस्य धारकाः सम्भवन्ति ते न गणेशात्परं भावं मानयन्ति कदाचन वेदशास्त्रपुराणेषु विचार्य मनुजोत्तमाः ततस्तस्य कृपा योगान् मौद्गनस्थं भजन्ति ते योगशान्तिपरा ेवं क्रमेण विप्रेन्द्र भवन्ति गणपप्रियाः विभिन्नफलसंयुक्ताः पुराणोपासकामदाः प्रणवोपासकाय वै परं ते देहधारिणं सर्वसामान्यभावेन मानयन्ति गजाननं सत्यं प्रणवरूपं यत्तत्र देहधरक् कथं तिष्ठे तु गणनाथो वयवादिभिरयं युधः ये वेदं न भिन्नं तत्र वर्तते अनेन विधिना तेषां भजनं तस्य जायते ततः परं ये भजन्ति महामुने गणेशानां सर्वसमं भावयन्दिनसंशयः बुद्धे परं बुद्धिसंस्थं बुद्धे प्राकाश्यदायकं ब्रह्म तत्र कुतो प्रणवो ह्यर्थसंयुतः मनोवाणीविहीनं यद्ब्रह्म ब्रह्मणिगं परं गणेश्वरोऽन्ये तु तत्र तिष्ठन्ति भ्रान्तिजाकुदः एवं भजन्ति विघ्नेशं परं प्रणववर्जितम् ब्राह्मे पुराणे संस्थं ते जानीहि मुनिसत्तमा ततः परं गणेशानां गणेशस्थं भजन्ति ये गणेशार्थरहस्यं ते ज्ञात्वा विश्वाससंयुताः प्रणवः प्रणवाकारो गणेशसगुणस्मृतः ओङ्कारवर्जितोऽयं तु बुद्धिस्तो निर्गुणस्मृतः प्रणवो बुद्धिः तत्परो ब्रह्मदो भवेद तयो प्रीत्यर्थमानन्दाद्देहधारी बभूवः ककारप्रणवाकारोऽणकारो बुद्धिचालकः तयो स्वामी तयोस्वामी गणेशोऽयं गजवक्त्रादिचिह्नितः गाणपत्यस्वभावेन भजन्ते येक एकनिष्ठतया भक्त्या भवन्दे विप्रयोगिनः ततस्ते मौद्गले पूर्णं भक्रि भक्तिसंयुताः त्रयाणां द्योदकं पूर्णम् तेषां योगे गजाननं योगरूपो त्रिरूप धारको भवद कार्यार्थं केलसंयुक्तो मायाभ्यां नात्र संशयः प्रणवो जगदाकारश्चिदाकारो हिधिष्ठितः तयोरात्मा ततश्चायं गजवक्त्रादिचिह्नितः एवं ज्ञात्वा गणेशानां भजन्ते त्रिषु संस्थितं मौद्गलस्था सदा विप्रयोगज्ञायोगरूपिणं तत्र ते भजनं मुख्यं पञ्चधा कथयाम्यहं येन भक्त्येन्द्रभूपस्थं भविष्यसि महामदे मूर्तिसंस्थं गणेशान्नं भजेत् पूजाधिमार्गदः मन्त्रस्तवनकाद्यैश्च देहधारिसुखप्रदैः प्रणवं जगदाकारं तत्र जीवमयं प्रभुं भजे सर्वत्र संस्थं तं सर्वेषां हितमाचरन् कस्यचित्वशुभं विप्र न कुर्यात् स नरोत्तमः अनेना सोपि तोष्य गणनायक द्वंदम सलोक्य साक्षिव भावर्जि बुद्धिस्थिए विघ्नेशंभक्रिवत्सल धर्मर्माद भ्रम त्यक्त महामति बुद्धिभां पर्य निस्स भा नाहं कर्ता कारयिता न देहस्थो न निश्चितं न बुद्धिस्तोऽहमानन्दात् ब्रह्माहं निर्मलः सदा निर्लिप्तलिप्तहीनाया भक्तिस्सा परिकीर्तिता तया गणेश्वरप्रीतो भवेदात्मा सदा न गणेशादहं भिन्नो देहधर्मप्रवर्तते दे। गणेशभक्तिसंयुक्तो मौद्गलस्थो भजेत् परम् स्वयं गणेश्वरो भूत्वा त्रिविधस्तं गजाननं त्रिभिर्मार्गैर्भजे नित्यं शान्त्या भक्तिसमन्विधः त्रयाणां योगभावेयो गणेशस्त्रिविधो मदः स्वयं त्रिविधकं कम्पश्यन् भजे चानन्यजेदसः त्रिभिर्भावैसमयुक्तो भजेद्योगीमहायशः गणेशं गणपाकारो मौद्गलज्ञो विचक्षणः एवं गणेश्वरस्यैव भजनं गुरुमानद तेन योगीन्द्रवन्द्यस्त्वं गाणपत्यो भविष्यसि आदौ देहधरान् शम्भुमुख्यान् संसेव्यवै नरः ततो जीवस्वरूपस्थान् प्रणवाकृतिधारकान् ततो बुद्धिगतान् विप्र तदो भक्तिं लभेत्परां गणेशं सेवते सेवतेऽनन्यभावदः तदो मौद्गलकं ज्ञात्वा योगी योगपरायणः भजदे त्रिविधे संस्तं गणेशं गणपप्रियः यदत्ते कधिदं सर्वं भजनं गणपस्य च स्वरूपं त्रिविधं पूर्णं त्रिमार्गद्योदनं मुने शौनक उवाच अष्टादशपुराणानि कथितानि विशेषदः अन्यान्युपपुराणानि व्यासेनामिद बुद्धिना यथा उपवेदा प्रकीर्तिताः न हि वेदसमभिप्रैर्मन्यन्ते वैविशेषतः तथैवोपपुराणानि तेषु गणेश्वरं परं मौद्गलं कथितं विप्राय कथं तत्राधिकं भवेद सुद उवाच यथा देवपथि प्रोक्त इन्द्र सर्वत्र विप्रपैः उपेन्द्रो विष्णुराद्यो वैकथ्यते च विनायकः इन्द्रादधिकभावेन मदौ विष्णुविनायकौ तथैवोपुराणानि ब्रह्म सायुज्य दानि आदौ श्रुत्वा पुराणानि तदः साधनसंयुतः साधयित्वा भवेद्विप्रपात्रं चोपपुराणके एवं जानीहि सर्वत्र पुराणेषु विशेषतः वेदोपवेदवच्चात्र नैव ब्रह्मविनिश्चयाद मोहनार्थं जनानां वैभ्रान्तिभावप्रकाशनाद् गणेशस्य स्वरूपं यद्वर्ण्यते गूढकं परम् अतो गणेश्वरस्यैव मदा भक्तिस्सुदुर्लभा पूर्णपुण्यबलेनाढ्यैर्लभ्यते योगिभिः परा मौद्गलेन गणेशस्य स्वरूपं ज्ञायते जनैः परिपूर्णं न सन्देहोऽन्यथा भ्रान्तिर्भविष्यति ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे योगामतार्थशास्त्रे नवमे खण्डे दक्षमुद्गलसंवादे गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः